अयोध्याकाण्डं सर्गं तु अधराजा दशरथकदाचिद्रहसि स्थितः वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषद भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः पौराश्च निगमावृद्धा मन्त्रिणश्च विशेषतः तदस्सर्वगुणोपेदं रामं राजीवलोचनं ज्येष्ठं राज्ये धिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव भरदो मातुलं द्रष्टुं गदशत्रुघ्नसंयुतः अभिषेक्ष्यशु भवान्तुमोद संभारा संभ्रिय गंत्रयराखव उछ्रीयता पताकावर्ण सत तोरणानि विचित्रानि स्वर्णमुक्तामयानि वै आहूय मन्त्रिणं राजा सुमन्त्रं मन्त्रिसत्तमम् आज्ञापयदि यद्यत्वां मुनिस्तत्तः समानय यौवराज्येभिषेक्ष्यामि श्वो भूदे रघुनन्दनम् तथेदि हर्षात् त मुनी किंकमी भाषत तमुवाच महातेज वसीषोज्ञा वर श मध्यक स्वर्णभूषिता षोडशजस्वर्णरत्भूषिता चुर्दंधसम ऐ कुलोद्भवः नानातीर्थोदकैपूर्णा स्वर्णकुम्भास्सहस्रशः स्थाप्यन्तां नववैयाक्रचर्माणि त्रीणि चानय श्वेदच्छत्रं रत्नदण्डं मुग्धा मणिविराजितं वस्त्राणि दिव्यान्याभरणानि च मुनयसत्कृतास्तत्र तिष्ठन्तु कुशपाणयः नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा नाना वादित्रकुशला वादयन्तु नृपाङ्गणे हस्त्यश्वरथपादा बहिस्तिष्ठन्तु सायुधाः नगरे ये ठीकतायतना चेषु प्रवर्तता नाबिभरवृताीघ्र यां नानो पयन पड़य इत्यादिश्य मुनिश्रीमान् सुमन्त्रं नृपमन्त्रिणं स्वयं जगामभवनं राघवस्यादिशोभनं रथमारुह्य भगवान् वसिष्ठो मुनिसप्तमः त्रीणि कक्षाण्यतिक्रम्य रथाक्षितिमवातरद अन्धः प्रविश्य भवनं स्वाचार्यत्वादवारितः गुरुमागधमाज्ञाय रामस्तोर्णकृताञ्जलिः प्रत्युद्गम्य नमस्कृत्य दण्डवद्भक्तिसंयुतः मानिनायाशुजानकी। पानीय मानिनायाशु जानकी रत्नासने सीताया सह राघव धन्योस्मीब्रवीद्रास्तवरणा श्रीराम मुक्तस्तु प्रहसन्मुनब्रवीद धृत्वा धन्यो भूत गिरीजापति ब्रह्मा भी मिता तेहि पादतीर्थ हताशुभः इदानीं भाषसेयत्वं लोकानामुपदेशकृद जानामि त्वां परात्मानं लक्ष्म्या सञ्चादमीश्वरं देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्ति सिद्धये रावणस्य वधार्थाय जातं जानामि राघव तथापि देवकार्यार्थं गुह्यं नोत्खाटयाम्यहं तथा त्वमायया सर्वं करोषि रघुनन्दन तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहं गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः अन्तर्यामि जगद्यात्रा वाहकस्त्वमगोचरः शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवं मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया पौरोहित्यमहं जाने विगर्ष्यं दूष्यजीवनं इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते यदि ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा ततोऽहमाशया तव सम्बन्धकाङ्क्षया अकार्षं गर्षितमपि तवाचार्यत्वसिद्धये ततो मनोरथो मेऽद्यबलिदो रघुनन्दनत्वदधीना महामाया सर्वलोकैकमोहिनी का मां यथा मोहयेन्नैव तथा कुरु रघुद्वह गुरुनिष्कृतिकामस्त्वं यदि देह्ये तदेव प्रसङ्गात् सर्वमप्युक्तं नवाच्यं वाच्यं कुत्र चिन्मया राज्ञा दशरथेनाहं प्रेषितोऽस्मि ऋकूद्वः त्वामामन्त्रयितुं राज्येष्वोऽषेक्ष्यति राघव अद्यत्वं सीतया सार्धमुपवासं यदाविधि कृत्वा शुचिर्भूमिशायी भव रामजितेन्द्रियः गच्छामि राजसान्निध्यं त्वं तु प्रादर्गमिष्यसि इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्धृतं रामोऽपि लक्ष्मणं दृष्ट्वा प्रकसन्निधमब्रवीद सौमित्रे यौवराज्ये मेश्वोऽभिषेको भविष्यति निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि ममत्वं हि बहिप्राणो नात्रकार्याविचारणा तदो वसिष्ठेन यथा भाषितं तत्तथाकरोद वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयद वसिष्ठस्य पुरोराज्ञा ह्युक्तं रामाभिषेचनं यदा तदैव नगरे श्रुत्वा कश्चित् पुमान् जगौ कौसल्यायै राममात्रे सुमित्रायै तदैवच च श्रुत्वा देहश्वसम्पूर्णे दुर्हार तस्म तत पुत्र वत्सला लक्ष्मी पर्यचरदेव रामस्यार्थ प्रसिद्धये सत्यवादी दशरथ कौत्य प्रतिश्रुदेय वश कि इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः रामाभिषेकविघ्नार्थं यतः स्वब्रह्मवाक्यतः मन्धराम प्रविशस्वादौ कैकेयीं च ततः परम् ततो विघ्ने पुनरेहि दिवं शुभे तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थरां सापि कुब्जा त्रिवक्रादु प्रसादाग्रमधारुहद नगरं परितो दृष्ट्वा सर्वतः समलङ्कृतं नानातोरणसंबाधं सर्वोत्सव सर्वोत्सवसमायुक्तं विस्मिता पुनरागमद तत्रीं पप्रच्छमाध किं नगरं समलङ्कृतम् नोत्सवसमयुक्ता कौसल्याचादिकर्षिता ददाति विप्रमुखेभ्यो वस्त्राणि विविधानि च तामुवाच तदा धात्री रामचन्द्राभिषेचनम् श्वो भविष्यदि तेनाद्य सर्वतोऽलङ्कृतं तछ्रुवा ध्वा कैकेय वाक्यमब्रवीद पर्यस्ताी मेका पर्यवस्थिता कि शेषे दुर्भगे मूढ़े महदयुपस्थित न सौंदर्यमानिनी मतगामिनी। रामस्यानुग्रहाद्राज्ञश्वषेको भविष्यति तच्छ्रुत्वा सहसोद्धाय कैकेयी प्रियवादिनी तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितं हर्षस्थाने किमिति मे कथ्यते भरतादधिको राम प्रिय कृन्मे प्रियं वदः कौसल्यां मां पश्यन् सदा शुश्रूष देहि रामाद्भयं किमापन्नं तव मूढे वद स्व मे तच्छ्रुत्वा विषसादाधकुब्जाकारणवैरिणी शृणुमध्वजनं देवी। यथार्थं ते महद्भयं त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते कामुको तथ्यवादी च त्वां वाचा परितोषयन् कार्यं करोति तस्या वै राममादुःसुपुष्कलं मनस्येतन्निधायैव प्रशया मासते सुतं भरतं मादुलकुले प्रेषयामास सानुजम् सुमित्रायाः समीचीनं भविष्यति न संशयः लक्ष्मणो राममन्वेदि राज्यं सोऽनुभविष्यति भरतो राघवस्याग्रे किङ्करो वा भविष्यति आप्यदे चिराद त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि ततोऽपि मरणं श्रेयो यत्सपत्न्याः परा भवः अधशीघ्रं यदस्वाद्य भरदस्याभिषेचने रामस्य वनवासार्थं वर्षाणि नव तदो तदोरूढो भये पुत्रस्तव राज्ञि भविष्यति उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् पुरा देवासुरे युद्धे राजा दशरथस्वयम् इन्द्रेण याचितो धन्वी सहायार्थं महारथः जगामसेनया सार्धं त्वया सह शुभानने युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः तदाक्षकीलोऽन्यपदश्चिन्नस्तस्य न वेदसः त्वं तु हस्तं समावेश्य किल रन्ध्रेदि धैर्यतः स्थितवत्यसितापाङ्गि पदिप्राणपरीप्सया तदो हत्वा सुरान् सर्वान् ददर्श त्वा आश्चर्यं परमं लेभे त्वमालिङ्ग्य मुदान्वितः वृणीष्व यत्ते मनसि वाञ्छिदं वरतोऽस्म्यहम् वरद्वयं वृणीष्व त्वमेवं राजा वदत् स्वयं त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयं त्वय्येव तिष्ठदुचिरं न्यासभूदममानख यदा मे वसरो भूयात्तदा देहि वरद्वयं तदेत्युक्त्वा स्वयं राजा मन्दिरं व्रजसुव्रदे त्वत्तश्रुत मया पूर्वमिदानीं स्मृतिमागतम् अदशीघ्रं प्रविश्याद्य क्रोधागारं वृषान्विता विमुच्य सर्वभरणं सर्वतो विनिकीर्य च भूमावेव शयानात्वं तूष्णीमातिष्ठभामिनि यावत् सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी तद्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि भरतो यदि राजामे भविष्यदि सुदप्रियः सुतप्रियः ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा इत्युक्त्वा कोपभवनं प्रवेश सहसारुषा विमुच्य सर्वाभरणं सर्वाभं परकर् सम भूमौशा मलिनाबरधारिणी प्रोवाच शृणु मे कुबे यद्रा व्रजेद प्राणान् त्यक्ष्ये धक्रे शयिष्ये तावदेव हि निश्चयं गुरुकल्याणि कल्याणं ते भविष्यति इत्युक्त्वा प्रययौ सापि तथा करोत् धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाधवा निदिज्ञो विधिवाददेशिकपरो विद्या विवेकोऽधवा दुष्टानामधिपापभाविदधियां सङ्गं सदा चेद्भजेत तद्बुद्ध्या परिभावितो व्रचति तत्साम्यं क्रमेण स्फुटम् अधःसङ्गः परित्याज्यो दुष्टानां सर्वदैव हि दुःसङ्गीच्यवदे स्वार्थाद्यथेयं राजकन्यका इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे द्वितीयसर्गः ओ